मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेन्टि पुराणप्रशस्तिमाहात्म्यवर्णनं श्रीगणेशाय नमः शौनक उवाच श्रुत्वा मौद्गलकम्पूर्णं के के सिद्धिं प्रलेभिरे तेषां चरित्रमे वं मे ब्रूहि सूतसमासदः सूद उवाच आदौ मुद्गलयोगी शाश्रुत्वा दक्षो महामतिः स सर्वदोषहीनश्च बभूवे शान्तिधारकः ततो दक्षेण विघ्नेश नियमः स कृतो भवद मौद्गलं वेदं पठनीयं निरन्तरम् अवकाशानुसारेण अच पन्नित्यमादराद अध्यायादेस्तथा तत्र नियमं न चकारः भाद्रशुक्लप्रतिपदिप्रारभ्यो पोषणान्विदः चतुर्ध्यां तत्समाप्तं परायणं स चकारः एवं मा तदा पारायणं ज्येष्ठे महामदिः चकार देव देवविप्राध्यै संयुधो वार्षिकं परं एवं क्रमेण भक्रिया स गजाननपरायणः मौद्गलं सेवतेद्यापि गाणपत्यस्वभाववान् तेनैव बोधिता सर्वे वसिष्ठाद्या महामुने सेवन्दे मौद्गलं नित्यं प्रजापतय आदराद तैश्चान्ये बोधिता विप्रा योगमार्ग योगमार्गपरायणाः नानाभावसमायुक्ता असेवन्निदमुत्तमम् एवं परम्पराप्राप्तं विदुः सर्वे जन्दवः नानाभाव नानाभावसमायुक्ता अशेवन्मौद्गलं परं दक्षयज्ञे समायादै शिवविष्णुमुखामरैः तैादं मौद्गलं पूर्णं योगदं सर्वसिद्धिदं यज्ञं समाप्य सर्वे ते स्वं स्वं धामययुर्मुदा तदशिवेन योगीश प्रार्थितस्तत्र पुराणश्रवणार्थं सप्रणम्या पूज्यभक्तिदः तुष्टस्तेन समायुक्तो जगाम शिवमन्दिरं ततः पुराणमाहात्म्यं ज्ञात्वा विष्णुमुखामराः आयुश्रवणार्थं ते कैलासं पर्वतेश्वरं शिवेन संयुताः सर्वे ब्रह्माद्याशुश्रुभुः परम् पुराणं मौद्गलं पूर्णं मौद्गलाद्योगिसागराद् वर्षेणैकेन ते श्रुत्वा पुपूजुस्तं शिवादयः विसृज्य मेनिरे सर्वे शस्त्रीकाकृतकृत्यतां गणेश्वरस्य तत्रांशिवपुत्रस्थितो भवद स एव मौद्गलं नित्यं जजाप गणपप्रियः मूर्तिस्थं गणनाथं स पूज्य नित्यं महायशः तत्सन्निधानगो भूत्वा जजाप द्विधमुत्तमं विश्वनाथशिवसाक्षात् काश्यां नित्यं महामुने जापनियमे संस्थो डुण्डिराजस्य माके सु प्रप्रतिपदिप्रारभ्यो पोषणान्वितः चतुर्ध्यां तत्समाप्तं पारायणं स चकारः तथा भाद्रपदे मासि मुद्गलशुकसंयुतः मयूरेशस्य सान्निध्ये चक्रे पारायणं मुदा नित्यम् जजापभावेन गणपत्यै समन्वितः महाभक्तश्च सर्वेषाम् तारकस्तारकाकृतिः ज्येष्ठे मासि स्वयं पारायणं शेषश्चकारक मूषकस्तस्य सान्निध्ये नागासुरसमन्वितः जचापनित्यमेवं स सर्वभावसमन्वितः भक्ति युक्तो महाभक्तः सर्वेषां हितकारकः तथा साक्षात् ज्ञानेशस्य प्रतुष्ठये ज्येष्ठे पारायणं पूर्णं चक्रे सौभक्तिसंयुतः नित्यं जपपरो भूत्वा जचापत्विदमुत्तमं नानायोगी समायुक्तशङ्करेण समन्वितः विष्णुर्भानुर्विधिशक्तिरिन्द्रश्चाग्निमुखामराः नित्यं स्वस्वगृहे संस्था सेवन्दे मौद्गलं परं कश्यपाद्यामुनीन्द्राश्च मुनयसिद्धमुख्यकाः कपिलाद्या इदं नित्यं सेवन्दे भक्तिसंयुताः शनकाद्याश्च संवर्तो योगिनो नव नित्यं जपपरा सेवन्दे मौद्गलं मुदा नारदो गानसंयुक्तश्चचार भुवनेषु च गायन्नित्यमिदं विप्र मौद्गलं योगशान्दिदं एवं नानाजना सर्वे मनवश्वमहर्षयः सेवन्दे नित्यमेवेदं सर्वसिद्धिप्रदायकम् व्यासस्वयं महाभागसेवदे नित्यमादरादगणेशं मौद्गलं चैव भक्तिभावसमन्वितः एवं मया न शक्यं तत्कथितुं मुनिसत्तमभाग्यवन्दो विशेषज्ञासेवन्दे मौद्गलं सदा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणः प्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः ओम्